वादिना वदन्ति किञ्चतुर्होदनाम् चतुर्होतृत्वमिति यदेवेण चतुर्धा होतारः तेन चतुर्होतारः तस्माच्चतुर्होतारमुच्यन्ते तच्चतुर्होदनाम् चतुर्होतृत्वम् स्वभावे चतुर्होता अग्निः पञ्चहोता धातारद्धोता इन्द्रः सप्तहोता प्रजापतदश होता एवम् चतुर्होदनावृद्धिम् वेद अर्थान्तेव इरेषामेवम् बन्धुताम् वेद बन्धुवान् भवति यरेषामेवङ्ग्लत्यम् वेद पर्वतेऽस्मै यरेषामेवमायतनम् वेद आयतनवान् भवति यरेषामेवम् प्रतिष्ठाम् वेद प्रत्येव ब्रह्मवादिना वदन्ति दश होत पञ्चहोता षड्होता सप्तहोत अथ कस्माच्चतुर्होतारमुच्यन्तमिति इन्द्रोपे चतुर्होता चतुर इन्द्रः खलु वे श्रेष्ठो देवतानामुपदेशना यदेवमिन्दग्निः श्रेष्ठम् देवतानामुपदेशनाद्वदृष्ठः समानानाम् भवति तस्माच्छ्रेष्ठमायन्तम् प्रथमेनैवानुबुध्यन्ते अयवागन्ने अयमवासाजने कीर्तिकस्य पोर्वागच्छलि जनता वा गतः अथो नैनम् प्रथमेनैवानुबुध्यन्ते अयमागन् अयमवासावि दक्षिणाम् प्रतिग्रहेष्याम् सप्तदशकृतो आत्मानमेव समिन्धेवेर्याय अथो प्रजापतिदेवीनाम् भूत्वा प्रतिगृह्णाति आत्मनो नाचे यज्ञैनवात्म्यदम् सन्तम् निर्भरेरन् आग्नेतारम् चतुर्गृहीतेनाद्येन पुरस्तात् प्रत्यम् तिष्ठन् प्रतिलोमम् विग्राहम् प्राणानैवास्योपदासयति यद्येन पुनरुपचिक्षेयुः आग्नेयाद्रजहोतारम् चतुर्गृहीतेनाद्येन पश्चात्प्राणादीनः अनुलोमविग्राहम् प्राणानेवास्मै कल्पयति प्रायश्चित्ते वाग्भवते भवतिवास्मे कल्पयते कल्पन्ते अस्मार्दवः अस्मार्तवः तावे भवत्वा प्रजापतिरितकम् तरणमसजत समानसोऽधिकार्यत्रेमसजतर्गायत्रे सहार्चते तामानभता कार्यत्र्याधिचण्डाकस्य तत्सामयलः आर्छदार साम्नो हेजोगश्यजुर्भ्योऽसि विष्णम् तद्विष्णञ्जलः अर्चद कमालभत विष्णोरथ्योढधेरसिला ओढधेभ्यो हि तोमम् तत्सोमञ्जः अर्चद कमालभत सोमादसिपशुरसल पशुर्भ्योन्द्रम् हरेन्द्रयदः अर्च्छद हरेरन्नादिप्राच्यवद इन्द्रजमय तस्मै भवति यदेवम् वेद नैन यतो विप्रच्छत् यद्वा इदम् किञ्च तत्सर्वमुत्तानवेणाङ्गेरसः प्रत्यगृह्णात् अनेन प्रतिगृहीतम् च प्रतिगृह्णीनात् तत्सर्वमुत्तानस्त्वाङ्गेरसः प्रतिगृह्णात्येव प्रतिगृह्णीयात् इयम् वा नैनगम् हिनस्ति बहिम् वा स्वम् वा एतद्वै शूनाम् प्रियन्धामेन वैरन्धाम् न प्रत्ययते योगाविरुद्धान्यवर्तयते विशीर्षादवात्मामष्टम् लवगे भवति अथगाविरुद्धान्यवर्तयते विशीर्षाविवाहात्मामृष्टम् लवगे भवते देवता वेदप्तपुष्टिकामान्यवर्तयन्त अग्निश्च पृथिवे च वायुश्चान्तरिक्षम् च आदित्यश्च द्यौश्चरन्द्रमाः अग्न्यवर्तयत ससा हश्रमपुष्यत् पृथिवेऽन्यवर्तयत सौषधे भर्मनस्मतिभिरपुष्यते वायुर्न्यवर्तयत समदेतेऽभिरपुष्यते अन्तरिक्षन्यवर्तयत तद्वयोभिरपुष्यते आदित्योऽन्यवर्तयत स रश्नुभिरपुष्यते ज्यौर्नवर्तयत सा नक्षत्रेण पुष्यते चन्द्रमान्यवर्तयत सोऽहोरात्रैरमासे मासैरेण पुष्यते तान् पुष्यन् एवम् विद्वान्नि च वर्तयते परिच तस्य वा अग्ने हिरण्यम् परिजग्रगुरः अर्धमिन्द्रियस्या वा प्रत्यगृह्णात् तेन वेधोः अर्धमिन्द्रियस्यात्मन् उपासत्त अर्धमिन्द्रियस्यात्मनुपासत्ते हिरण्यम् प्रति गृह्णाति अथयो विद्वान् प्रति गृह्णाति अर्धमस्येन्द्रियस्यापक्रामदि तस्य वेधोमस्य वासप्पदिजग्रगुहः तृतीयमिन्द्रियस्यापाकलामत् प्रत्यगृह्णात् तेन वेत तृतीयमिन्द्रियस्यात्मन्नुपासत्त तृतीयमिन्द्रियस्यात्मन् न बाधत्ते यगेवम् विद्वान् वाहपदिगृह्णाति अथयो विद्वान् परिगृह्णाति तृतीयमस्येन्द्रियस्यापक्रामते अस्य वे रुद्रस्य काम् पदिग्रगुणः चतुर्थमिन्द्रियस्यापाक्रामते कामेतेनैव प्रत्यगृह्णात् तेन वेतर्थमिन्द्रियस्यात्मन् न बाधत्त चतुर्थमिन्द्रियस्यात्मन् न बाधत्ते ेवम् विद्वान् गाम् प्रतिगृह्णाति अथगव विद्वान् प्रति गृह्णाति चतुर्थमस्तेन्द्रियस्यापक्रामदि तस्य वै वरुणस्याश्वम् प्रतिनग्रहुरः पञ्चममिन्द्रियस्यापाहक्रामदे प्रत्यगृह्णात् तेन वै स पञ्चममिन्द्रियश्चात्मन्नुपाधत् पञ्चममिन्द्रियश्चात्मन्नुपाधत्ते यदेवम् विद्वानश्वम् प्रतिगृह्णाति अथयो विद्वान् प्रतिगृह्णाति पञ्चमस्येन्द्रियस्यापक्रामति तस्य वे प्रजापदे पुरुषम् पति चग्रगुणः षष्ठमिन्द्रियस्यापाक्रामत् त्वमेतेनैव प्रत्यगृह्णात् तेन वैष षष्ठमिन्द्रियस्यात्मनुपासत्ता षष्ठमिन्द्रियस्यात्मनुपासत्ते यदेवम् विद्वान् पुरुषम् प्रतिगृह्णाति अथयो विद्वान् प्रति गृह्णाति षष्ठमस्तेन्द्रियस्यापक्रामते तस्य वे मनोस्तर्पम् प्रतिरग्रगुटः सप्तममिति क्रियश्चापाक्रामदे प्रत्यगृह्णात् तेन वै सप्तममिन्द्रियश्चात्मन्पाधत्तः सप्तममिन्द्रियश्चात्मन् नुपाधत्ते एवम् विद्वानिस्तर्पम् प्रतिगृह्णाति अथयो विद्वान् प्रतिगृह्णाति सप्तममस्त्रेन्द्रियश्चापक्रामदे तस्य वा उत्तानस्याङ्गेतस्य प्राणपदिगुणः अष्टममिन्द्रियस्यापाक्रामत् तदेतेनैव प्रत्यगृह्णात्ममिन्द्रियस्यात्मन्पाधत्य अष्टममिन्द्रियस्यात्मन्पाधत् एवम् विद्वानप्राणपदिगृह्णादि अथयो विद्वान्पदिगृह्णादि अष्टममस्येन्द्रियस्यापक्रामदि हिद्वा इदम् किञ्च तत्सर्वमुत्तान एवाङ्गेरसः प्रत्यगृह्णात् रेण प्रतिगृहीतम् नाहिर यत्किञ्च प्रतिगृह्णीरात् तत्सर्वमुत्तानस्ताङ्गेरसः प्रतिगृह्णात् वित्त प्रतिगृह्णीराय इयम् वा उत्तानाङ्गेरसः अनडेवेरप्रतिगृह्णादेवणते ब्रह्मवादिना वदन्ति यद्दश भवतार सत्रमासना केन प्रजासजन्तेति प्रजापतिनावेते घृषवजिनार्ध्रवन् येन प्रजासजन्त यच्चतुरहोतारसत्रवाददा केन ते घृषवजिनार्ध्वन् केन उडधीरसजन्तेति सोमेन वेते घृपजनार्धवन् केन उडधीरसजन्त यत्पञ्चभोतारसत्रवाददा केन ते घृढवजनार्धवन् केनेभ्यो लोकेभ्यो सुधान् प्राणुदन्त केनेषाम् पशूनवृञ्जतेति अग्निना वैत् गृहपदिनार्धवन् तेनैभ्यो लोकेभ्यो सुधान् प्राणिन्त तेनैषाम् पशूनवृञ्जद यक्षद्भोतारस्वत्रमासद केन ते गृहपतिनार्धवन् केनत्तोनकल्पयन्तेति धात्रावैत् गृहपतिनार्धवन् तेन कल्पयन्त यत्सप्तभोतारस्वत्रमासद केन ते गृहवचनार्धवन् येन सुवरायन् हेमाल्लोकान् समदन् वन्दिने हर्यम्ना वैते घृवचनार्धवन् तेन सुवरायन् हेनेमान् लोकान् समदन् वन्दिने हे देवे देवाघृहवजनः तानिरेवम् विद्वान् अप्यन्यस्य कार्यपते दीक्षते अभान्तरमेव सत्तिनामध्योति योवार्यमणम् वेदा दानकामास्मै प्रजा भवन्ति यज्ञोपहार्यमा आर्यावशतिर्विवेदमाहुर्यम् प्रशकंसन्ति आर्यावशतिर्भवति यदेवम् वेद यद्वा इदम् किम् च तत्सर्वम् चतुर्होदारः चतुर्होदभ्यो हि यज्ञो निर्मितः हैरेवम् यद्वारिपदेत अहमेव भोजो वेद यश्चतुर्होद्रेण वेदेते यस्येव भोजो वेद यश्चतुर्होदरे चतुर्होदनागम्भोदेन वेद सर्वासु प्रजास्पन्नमत्ते सर्वादिलोभिषये प्रजापदर्वेदशहोदनागम्भोता सोमश्चतुर्होदनागम्भोता अग्निपञ्चहोदनागम्भोता धाता षड्भोदनागम्भोता अर्यमासप्तहोदनागम्भोद एते वैतृणाग् न सर्वासु प्रजास्वन्नमत्ते सर्वादितो विजयते प्रजापति प्रजा स्रष्टाभ्यस्रगम् सदा सहृदयम् भवतोषयत् आत्मनिधा इत्यह्वयत् आपप्रत्यशुण्वन् ताग्निहोत्रेणैव यज्ञनापर्यावर्तन्त ता कुसिन्धमोहन् तस्मादज्ञः क्रस्तयज्ञक्रदोः एकऋत्विकचतुष्कत्वायत् भग्निवायुरादित्यश्चन्द्रमाः हे प्रत्यषण्मन् हे दर्शपूर्णमासाभ्यामेव यज्ञा वर्तन्ताग्निश्चत्वार्यङ्गानि तस्मादर्शपर्णवासयोक्रदोः चत्वार ऋत्विकः पञ्चकत्वाह्वयत् पशवः प्रत्यषण्मन् ते चादनुमास्येनैव यज्ञक्रतुनापर्यावर्तन्तर्लोपछवेकम् समस्ति मज्जानम् तस्मा चादनुमास्यायज्ञतोः पञ्चत्विदः प्रत्यशण् पशुबन्धेनैव यज्ञः कृतनापर्यावर्तन्त तौ भो हस्तराौ शिष्यमवाहञ्चम् प्राणम् तस्मात् पशुबन्धस्य यज्ञक्रतोः प्त कृत्वाह्वयत् होत्राः प्रत्यशृण्वन् ताः सौम्येनैव यज्ञः कृतु न पर्यावर्तन्त ता उपोऽहन् सप्तशीर्षान् प्राणाः तस्मात् सौम्यस्याध्वरस्य यज्ञकृताः सप्त होत्राप्रादे प्रक् कुर्वन्ति दश तत्कर्मणैव संवत्सरेण सर्वैर्यज्ञमासंवत्सरे सर्वे यज्ञहोता षड् होता सप्तहोता एकहोत्रे भयिम् हरन्ति हरन्त्यस्मै प्रजाफलिम् ऐनमप्रतिक्षातम् गच्छति यदेवम् वेद प्रजापुरुषमसिदग्निरम्ब्रवीत् मायमन्नमस्ति स्वबिभेद् सर्वम् वै मायम् पथक्षति सवेदातुर्होत्रेणात्मस्मरणानपश्योत् तैर्वै स आत्मानमस्मनाहोत्रम् जोजे एकहोतारेवप्नोत्यग्निहोत्रम् आत्मनस्मनो चे आदित्यस्य चारुज्यम् गच्छते चतुर्न्नयते चतुर्होतारमेव क्रतुमाप्नोदितरिजरोर्णमासौ नर्तारित आत्मनाङ्गानि स्पृणोति आदित्यस्य चारुज्यम् गच्छति चतुर्न्नयते समि पञ्चमे पञ्चहोऽतारमेव तद्यज्ञ क्रतुमाप्नोदितानुर्मास्यानि नवमशमे मास्ति मज्जानम् आदित आत्मन स्पृणोति आदितस्य रघायुज्ञम् गच्छति चतुर्न्नहिते निर्जहोते षड्ढोतारमेव तद्यज्ञक्रुतुमाहाप्नोलुबन्धम् स्तरापाण्डौ शिष्टमवाहाम् प्राणम् आनितात्मनः स्मनोते आदित्यस्य रथायुज्ञम् गच्छति चतुर्न्नहिते तदात्मनश्चैर्सन् शृणोति आदित्यस्य दशायुज्यम् गच्छति तदुन्नयते निर्ज्यति दुर्निमाष्टेप्राश्नारमेव दे। तद्यज्ञ क्रतुमात्मोचम् वत्सरम् सर्वम् चात्मानपजवर्गज्ञस्मृणोति आदित्यस्य यथायुज्यम् गच्छति प्रजापदकामेरप्रजाते सोऽवान् भवति साहिदश्या वा भवत् तस्माश्रियन्तर्वत्नी हरिणीसरे श्यावा भवति स विजायमानो गर्भेन्द कृष्णश्यावो भवत् तस्माकृष्णश्यामो भवति तस्यासुरे वा जीवते मधुराणामसुरत्वम् एव मधुराणामधुरत्वम् वेद वसुमा एव भवति नैनमसुर्जहापि सोदुरान् सृष्ट्वापि देवा मन्यत तदनुद्रेण सः पिनाम् पिम् यदेवम् पिनाम् पिनृतम् वेद स्वानाम् भवति स्वपुत्रे सृष्ट्वा मनुष्यते तदनु मनुष्यानु तन्मनुष्याणाम् मनुष्यत्वम् एवम् मनुष्याणाम् मनुष्यत्वम् वेद मनस्मे भवति नैनम् मनर्जहादि अस्मै मनुष्यान् सिवादेवत्राभवत् तदनुवानाम् देवत्वम् एवम् देवानाम् देवत्वम् वेद दिवादैवाश्च देवत्रा भवति तानि वा एतानि चत्वार्यम् भागुंसि देवा मनुष्यापितलासुराराः ते सर्वेष्वम् भवनभैव भवति एवम् वेद ब्रह्मवादिना वदन्ति यो वा इमम् विद्यात् यतोऽयम् पवदे यदभिपदे यदभिषः प्रमीयेत पुशुमान् स्यात् बिन्देन प्रजाम् यो वा इमम् यदभिभवते यदभिधम् पवदे सर्वमायुरेदि न पुरायुधः प्रमीयदे वशुमान्भवते विन्ददे प्रजाम् अध्यः पवदे अपोभिभवदे अपोऽभिधम् पवदे तस्याः पवदे इमामभिभवदे इमामभिसम्पवदे अग्नेः पवदे अग्निमभिभवदे अज्ञिमभिसम्पवदे आदरिक्षात्पवदे अन्तरिक्षमभिभवते अन्तरिक्षमभिधम्पवते आदित्यात्पवदे आदित्यमपिपवदे आदित्यमभिजम् पवदे द्योः पवदे दिवमभिपदे दिवमभिजम् पवदेभ्यः पवदेश अभिपदे विशो अभिजम् पवदे स सर्वाः प्रजाः प्रतिनन्दन्ति प्राणो हि प्रियः प्रजानाः प्राणेव प्रियः प्रजानाहम् भवति एवम् वेद सवागेश प्राणगेव अशब्दक्षिणतो वादि मादलेष्वेव भोत्वा दक्षिणतोवादि तस्माद्दक्षिणतो वान्तम् विद्यान् सर्वादिश आवादि सर्वादिशो न विवादि सर्वादिशो न संवादिति सवादेशमादलेष्वैव अहेष् पश्चाद्वादि पवमान एव भूत्वा पश्चाद्वादि ऊतमस्मा आहरन्ति पूतमपहरन्ति पूतमश्चादि यदेवम् वेद स वा एष भवनेव अथैलुत्तरतो वादि सविदेव भूत्वोक्तरतो वादि सविदेवस्मानाम् भवति यदेवम् वेद स वा एषदविदैवम् पुरस्तादारन्तमुपहरन्ति यगेवास्य पुरस्ताः पात्मानः आगस्त्वेपभ्यन्ते पुरस्तारान् पात्मनःसरन्ते अथ एनम् दक्षिणतायन्तमुपवदन्ति यगेवास्य दक्षिणतः पात्मानः आगस्त्वेपभ्यन्ते दक्षिणत इतरान् पात्मनः सरन्ते अथ एनम् पश्चादायन्तमुपवदन्ति यगेवास्य पश्चात्पात्मानः आगस्त्वेऽपभ्यन्ते पश्चादितरान् पाप्माः सृजन्ते अथयेन उत्तरत आगन्तमुपदन्ते षडेदास्य पाप्मानः कागष्टे पघ्नन्ते उत्तरत इतरान् पाप्मस्जन्ते तस्मादेवम् विद्वान् वीवनित्येत् हेव चलेत् यस्य वा क्षौभाषेत अण्डरे दिव काचलेदिव उपमेपात्मानवहन् जगति सजान्ति रम् सनिवेष्यन् स्यात् यदा तान्ति संवातोभागात् असप्रवेदात् प्रधाव सातमेव सञ्जोषम् गन्धमभिप्रच्छवत् आस्वन्दनवरम् पौर्वाकेऽपि गच्छति तानकामास्मै प्रजा भवन्ति यगेवम् वेद प्रजापतिमत हन्तयो वेदानन्वसज्यन्त तानि हस्ते कुरुता असहेता सात्री स्वभगम् राजानम् जगमे श्रद्धामुखजगमे सा नमस्ते अस्तु भगवः उभत्वायाणि मृत्वापद्ये स्वमम्बैराजानम् कामये श्रद्धामुखकामयत इति तस्या उभस्था गर्वम्बालम् कल्पयित्वा दशहोतारम् पुरस्काराद्व्याख्याय चतुर्शोतारम् दक्षिणतः पञ्चहोतारम् पश्चाद् षड्भोतारमुत्तरतः सप्तहोतारमुपरिष्टाद् संहारेष्टवर्तिभिश्च मुखेलम् कृत्वा आस्यार्धम्भव्राज तारम्भोदीक्षो वाज उपमावर्तस्मेम्भोवाच भोगन्तुमाचक्ष्व एतन्माचक्ष्व यत्रे पाणाविधि तस्या वुहत्रेण वेदान् वदतौ तस्मानुभस्ते भोगमैव हारयन्ते कामजेन प्रियः स्यादिति कामजेदप्रियः स्यादिति तस्मादेतज्ञस्थाकरमलङ्कारम् कल्पयित्वा रजहोतारम् पुरस्कारः व्याख्याय चतुहोतारम् दक्षिणतः पञ्चहोतारम् पश्चात् षड्भोतारमुत्तरतः ष्टान्त्यम् कामयता समात्मा पद्यते आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगमुहोदप्रत्यशृणात् स दश होतो भवते शहोतो हवैनामेषः वा एतम् दशहोतकुंसन्तम्प्याचक्षते परोक्षेण परोक्षप्रियाय बहिदेवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम्भूतप्रत्यषृणात् सप्तहोतो भवते सप्तहोतो हवैनामेषः वा एतगुम् सप्तहोतकुंसन्तम् सप्तभोतेत्यागक्षते परोक्षेण परोक्षप्रियाय बहिर्देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठकम् भवतप्रत्यशमात् षड्भूतो भवते षड्भूतो हवीनामैषः संवादेतकम् षड्भोतकम् सन्तम् षड्भोतेत्यागक्षते परोक्षेण परोक्षप्रियाय महि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमकम्भूतप्रत्यशृणात् स पञ्चभोत भवते पञ्चहोत भवीनामेषः संवादेतम् पञ्चहोतकम् सन्तम् पञ्चहोतेत्याचक्षते परोवक्षेण परोवक्षप्रियादि वैदेवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थकम्भूतप्रत्यशृणाद चतुर्होतो भवते चतुर्होतो भवीनामेषः एतम् चतुर्होतकम् सन्तम् चतुर्भोतेदक्षते परोक्षेण परोक्षप्रयाय महि देवाः रमब्रवीत्त्वम् दे, वै मे नेतिष्ठकम्भूतप्रत्यश्रौषेःख्यातार इति तस्मान्तुर्होतार इत्यादक्षते तस्माश्रोषपुत्रा नाकम् वृद्य नमः नेतिष्ठो मद्य नमः नेतिष्ठ ब्रह्मणा भवति यगेवम वेदा बो